नारायणीयं दशकम् सेवन् मीटर् शार्दूलविक्रीडितम् एवं देवचतुर्दशात्मगजगद्रूपेण जातः पुनस्तस्योर्ध्वं खलु सत्यलोकनिलये जातोसि धादा स्वयम् यंशं सन्धिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं यो भोत्स्फीदरजो विकार विकसन्ना सिसृक्षारसः स्वयं विश्वविसर्गदत्तहृदयः सम्पश्य मानस्वयं बोधं कल्वनवाप्य विश्वविषयम् चिन्ताकुलस्तस्ति वान् तावत् त्वं पदे तपतपेत्येवं हि वैहायसीं वाणीमेन मशि श्रवश्रुदि सुखां कुर्वंस्तपः प्रेरणा कोऽसौ मामवदत् जगन्मण्डले दिक्षु उद्वीक्ष्य किमप्यनीक्षितवदा वाक्यार्थमुत्पश्यता दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् माया यत्र कदापि धे जगद्भ्यो बहिष्योगक्रोधविमोह साध्वसमुखा भावास्तु दूरं गदाः सान्द्रानन्दच्छरी च यत्र परमद्यो दिप्रकाशात्मके तत्ते धामविभाविदं विजयते विभो यस्मिन्नाम च दुर्भुजा हरिमणिष्यामा वदा तत्विषो नानाभूषण रत्नदीपिदधिशो राजद्विमानालयाः भक्तिप्राप्त तथा विधोन्नदपदा दिव्यं दि दिव्या जनास्तत्ते धाम निरस्तसर्वशमलम् वैकुण्ठरूपं जयेत् नानादिव्यवधूजनैरभिवृदा विद्युल्लता तुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योदिदा शान्दरा त्वत्पादाम्बुजसौरभैगुदुकाल्लक्ष्मी का स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तते पदं देहि मे तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासिदं भास्वत्कोटिलसत्किरीडकडगाभ्याकल्प विप्राकृति श्रीवत्साङ्गिधमातकौस्तुभमणि छाया ऋण कारण विश्वशाव क्षद विधिस्तत्ते विभो कालादाकोमलुची चक्रेण चक्रम दिशावान मुदार मंदसी दस्य प्रसन्नाजत्कबुगदारी पङ्कजधर श्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत दृष्ट्वा सम्भृत सम्भ्रमकमलभूस्त्वत्पादपादोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् जानास्येव मनीषिदं मम विभो ज्ञानं तदा पादयद्वैदाद्वैतभवत्स्वरूप परमित्याचष्टतं भजे आदाम्रे चरणे विनम्र मधतं हस्ते न हस्ते बोधस्ते भवितान् सर्गविधिभिर्बन्धोऽपि सञ्जायते इत्याभाष्य गिरं प्रदोष्य निधरां तच्चित्तगूढस्वयं सृष्टौ तं समुदैरयस भगवन्नुल्लासयोल्लाफदाम् ॐ सर्वत्र गोविन्दनामसङ्कीर्तनम् Go Winda, Go Winda